मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं तर्टिसिक्स् गौतमचरितं श्रीगणेशाय नमः मुद्गल उवाच त्रयः पुत्रा अङ्गिरसो बभूवुर्ब्रह्मवादिनः गाणपत्या महाभागा सर्वज्ञाः सुखदायिनः उदध्यप्रथमप्रोक्तो द्वितीयस्तु बृहस्पतिः संवर्तश्च तृतीयो भूद्योगशास्त्रपरायणः शिक्षितो गिरसा पुत्र उदध्यस्वल्पकालतः ब्रह्मभूतो भवत्सद्यो गाणपत्यो विशेषविद बृहस्पतिक्रमेणैव योगभूमिविशारदः भूमीनां साधने सकृतो भवच्चैव स्वभावदः तत्र स्वाधीनतां दृष्ट्वा शान्त्यर्थं शंकरं ययौ शिवेन गणराजस्य मन्द्रो दत्तषडक्षरः शान्तियोगस्य रूपं यत्कथितं तत्प्रविस्तराद शिवं नत्वा वनं सोऽपि ययौ दक्ष बृहस्पतिः गणपं ध्यात्वा पूजयत्तं विधानदः दर्शनार्थं गणेशस्य लालसा भून्महामदेः योगमार्गेण योगी स जातः शान्तिधरस्वयं गाणपत्यत्वमापन्नशिवतुल्यो बृहस्पतिः तुष्टस्तदा गणेशानोययौ तस्याश्रमं प्रभुः तुद्धः सम्पूजितस्तेन तुतोष गणनायकः अखण्डभक्त्रिभावं स तस्मै महात्मने अन्तर्धाय स्वमात्मानं गणेश स्वालयं ययौ प्रकथ्यदे महायोगी तदारभ्य बृहस्पतिः ब्रह्मनिष्ठानामयं श्रेष्ठो विभूतिपदमागतः संवर्थप्रथमं योगी द्वेषितो वै विशेषदः यत्र तत्र विभागार्थं गुरुणा भ्रातृभावदः स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् सहजं ब्रह्मकाशीस्थोऽध्यायद्वै शाङ्करं सदा तदः कदाचिद्राजेन्द्रो मरुतो यज्ञकाम्यया उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः तद्वृत्तान्तं समादाय देवेन्द्रः प्राब्रवीद्गुरुम् मत्स्पर्धिनं मरुत्तं मायजस्वत्वं बृहस्पदे देवानां वा मनुष्याणामेकपक्षधरो भव तस्यैव वचसारात्यक्रदस गुरुणा महान् मरुत्तं क्षुभिदं ज्ञात्वा तं ययौ नारदो मुनिः काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुं जडोन्मत्तःस्वभावेन स तिष्ठति मुनीश्वरः प्रातःकाले प्रणामार्थं शङ्करस्य जगच्छति शवं तत्र समागृह्य तिष्ठत्वं द्वारिभूमिपं विमुखश्चात्महीनं तं दृष्ट्वा गच्छति प्रपह एवमुक्त्वा गतो योगी नारदः सोऽपिहर्षितः तथा चकारधर्मज्ञ काश्यां गत्वा नराधिपः दृष्ट्वा नग्नं ननामासौ स्वगुरुं तत्र भूमिपः चलितश्चेष्टया दक्ष नमो मोच संवर्तस्तस्य वृत्तान्तम् श्रुत्वा स्वयमुपागतः यज्ञार्थम् तस्य राजर्षेरुपाध्यायो बभूवः जीवेन तस्य वृत्तान्तो ज्ञातस्तेनापि भूमिपः चलितोऽम् भविष्यामि गुरुस्तेत्यजमेजम् मरुत्तेन वैन वैनगृहीतं वचस्तदा गुरुणा प्रेरितो देव इन्द्रो वज्रं समाक्षिपद संवर्तेन च तद्वज्रं कृतं मोखं समाधिना शरणं तद्भयादिन्द्रो ययौ देवगणैः सदम् ततो देवगणैस्तेन मुनिभिः संस्कृतो मखा समाप्य यज्ञमेदस्य संवर्तस्वस्थलं ययौ समाधितत्परत्वेन ज्ञानं तेनापि शाम्भवं स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशान्तिप्रदं कदा यया वङ्गिरसंभ्रष्टुं तेन योग प्रकाशितः शान्तियोगमयसाक्षाद्गणेशः परमाद्भुतः संवर्तेन तथा दक्षसाधितो योग उत्तमः शान्तिरूपधरो योगी संवर्तः प्रबभूवः आगत्य संस्थितः सोऽपिक्षेत्रे स्वानन्दरूपिणि तत्र सिशेवे महाभागा जादा सम्मदाः। मयूरे श्र सिर तुत्र महाभागाज्ञसमद क्रमेणाते चे गणपू दिभिस्तधा। गणेशो मनसाभक्रिया खण्डभावेन सन्धृतः गौतमस्तत्र मुख्यश्च शान्तिमार्गपरायणः विख्यातो मुनिवर्गेषु स बभूव प्रजापते कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा बभूव द्वादशाब्दानि तया सम्पीडितं जगद पीडां दृष्ट्वा जनानां स दया युक्तो बभूवः गौतमं शङ्करं देवं सृष्टिहेदोर्नुनोदसः तदस्तं शङ्करः साक्षादवोचद्भक्तमुत्तमम् अनावृष्टिकृदा मुख्या कालेन ब्रह्मरूपिणा चालितुं न समर्थस्तं को बिब्रह्माण्डमण्डले अदोभिमानमुत्सृज्य तिष्ठत्वं मुनिसत्तम शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाचः गौतमो मुनिवर्यश्च विस्मितोऽभूत्स मानसे गौतम उवाच किमिदं नादवदसि त्वमीश सर्वसम्मदः कुरु मे वाञ्छितं नो चेद्देहत्यागं करोम्यहं गौतमस्याभिमानं तं दृष्ट्वा शम्भुः सुविस्मितः भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् शृणु गौतममाहात्म्यं देहं त्यजसि वैवृथा विनायकं भजस्वत्वं तेन सर्वं भविष्यति नायकेन विहीनोऽयं सर्वेषां स विशेषतः नायकस्तेन नामाभूद्विनायक इति वयं तदाज्ञया सर्वे वरुते महिनसंशयः गमनं वेदमार्गेणास्माकं सर्वत्र सम्मतम् उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः अतस्त्वं विघ्नराजं च शरणं गच्छ गौदम एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरं मन्द्रराजं गणेशस्य विधानं तस्य जोत्तमं गौतमस्तं प्रणम्यादौ तपसे वनमाययौ समाधिना महोग्रेण तोषयामास विघ्नपम् येवं वर्षेण तं डुण्डिर्ययौ वरं प्रभुः तं दृष्ट्वा हर्षितोऽत्यन्तं ननाम मुनिसत्तमः अथर्वशिरसातेन संस्तुतो गणनायकः प्रसन्नस्तमुवाचैवं वचनं ब्रूहि स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि गणपत्यं च सम्पूर्णं मां कुरुष्व गजानन अनावृष्टिभवं दुःखं जहि देवविनायक एदमेव वरं याचे वाञ्छिदं नात्र संशयः तमुवाचगणाध्यक्षत्वयो मुनिसत्तम तवाश्रमेधुना सर्वम् भविष्यदिनसंशयः सायङ्काले च बीजेभ्यः क्षिप्तेभ्यो भूमिमण्डले सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति तैर्धान्यैर्नित्यमेव त्वम् पोषयस्वमहामुनीन् समागतान् तथा भूदान् समये मुनिसत्तमा नित्यं प्रमुदिधाः सर्वे भविष्यन्ति तवाश्रमे समागदा नरा सर्वेनावृष्टेर्दुःखवर्जिताः मदीया भक्तिरचला भविष्यति तथा परा योगः शान्तिधरपूर्णो भावित्वं मत् प्रसादः एवमुक्त्वा गणेशानो गदस्वानन्दके पुरे गौतमो गणपत्यश्च तद्दिनात् सं बभूवः समुनिस्वाश्रमे गत्वा चकारगणपोदितम् अनावृष्टिभवं दुःखं जनानां स निराकरोत् तत्रागतान् स्वयं विप्रान्नादिग्भ्यः प्रजापदे तान् सर्वान् पोषयामास धान्याैर्नित्यसमुद्भवैः क्रमेण द्वादशाब्दास्ते गदावै दुस्तरामुने। दुस्तरा मुने तत्र सर्वत्र सञ्जादा वृष्टिर्वै दुःखहारिणी तदो ततो मुनिगणैः सर्वैर्विपरीतं विचारितं गौतमेन वयं सर्वे पोषिता नात्र संशयः सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति अध उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः तदस्तैर्मायया गौश्च कृत्वा गौतमसन्निधौ प्रेषिता सा हुदद्रव्यं भक्षयामास वै मुनेः गौदमेन स्वहस्तेन ममारासौ पदिदा गौ तदो ततोहा कृतं सर्वै ब्राह्मणैश्चत्मदर्शिभिः गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतं गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी त्र्यम्बकस्य शिरः संस्था प्रादुर्भूता च तत्क्षणाद तत्र स्नाने सद्यो वै पवित्रो गौदमो भवद गोवतादिमहापापं गच्छति स्नानमात्रदः ततः कदाचिद्विप्रेषो गौतमो ध्यानमाश्रितः विचारमकरो चित्ते ज्ञात्वा विचेष्टितम् चलनार्थं द्विजै सर्वैर्निर्मिता गौश्चमायया तदः कोपपरीताङ्घः शशापब्राह्मणान्मुनिः वेदबाह्या भविष्यन्ति कृदघ्ना ये महर्षयः मदीयच्चलनेनैव पादकेन न संशयः ततस्ते शापयोगेन भ्रान्ता जादा महर्षयः ज्ञात्वा कस्माद्विजा शापम् सम्भीदा अभवंस्ततः शङ्करम् शरणं सर्वे ययुर्देवम् महर्षयः शङ्करस्मरणं चक्रे विष्णोश्चैव सुविस्मितः समागतं महाविष्णुं पप्रचद्विजसौख्यदं मार्गं ततो हरिः शम्भुमुवाच वचनं हितं विष्णुरुवाच वेदबाह्यद्विजानां यत्कर्म सर्वं निरर्थकं न गधि कुत्र देहान्ते दे तेषां शम्भो न अतः तेषां हितार्थाय ग्रन्था कार्याः सदा शिव मोहदाश्च जनानां ते भजतां नरकप्रदा तदा शिवेन वामं च तन्द्रं तत्र प्रकाशितं विष्णुनां बौद्धशास्त्रं वैरचितं मोहदायकम् ऋषिभिश्च तथानी शास्त्रानि, रचितानि वै कालादी दक्ष मोहदा विशेषद फला त्र दत्ता भजता शंभुना विष्णुना ब्राह्मणना चुदघ्ना नरा एतानि सेवन्ते नारकाः सम्भवन्ति ते धार शास्त्राद्धारप्रवर्तिनः जनानां भजदां सर्वे पापां शास्ते महर्षयः स्वल्पकालेन कलौ। जन्मधरास्ततः तत्र ते पापकर्मणो भविष्यन्ति विशेषतः तेषु मार्गेषु संसकृता प्रपतिष्यन्ति रौरवे पुनः शुद्धा भविष्यन्ति नराकृतयुगे प्रभो तत्रैव योगमार्गेण गमिष्यन्त्य पुनर्भवम् एवं तेषां हितार्थाय शिवाद्यैरचितानि वै शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन वेदाधारयुधं शास्त्रं तदेव सुखदं परं तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् न मानवै, सर्वै, सर्वैः कलिदोषविवर्जितैः युक्तं गौतमशापेन महाभयकरं मदं कलौ पापा विभूमानो भविष्यन्ति महर्षयः नरस्थैः कथितं शास्त्रं न इदं गौदममाहात्म्यं यशृणोति नरो भवेद पठेद्वा मलही नः सन्निहामुत्रसुखी परम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ओ